नारायणीयं दशकं फिफ्टि नैन् मीटर् रथोद्धदात् त्वद्वपुर्णवकलायकोमलं प्रेमदोहनमशेषमोहनं ब्रह्मतत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुहुरन्वहं स्त्रियः मन्मथोन्मथित मानसाक्रमात्वद्विलोकनरतास्ततस्ततः गोपिकास्तवन था। सेहिरे हरे काननोप काननोपगतिमप्यहर्मुके निर्गदे भवदि दत्त मनसा मृगेक्षणाः वेणुनादमुपकर्ण्य दूरदस्त्वद्विलास कथया भिरे पदले पादा, मनोरमे व्यक्याकित प्रत्यूरय वेणुनालिका खेचरीकुम निर्विकारपशुपक्षिमण्डलं रावणं च दृषदामपि प्रभो तावकं व्यजनिवेणुकूजितम् वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवं तत्स्थितं तव परोक्षमप्यहो संविचिन्त्यमुहुर्व्रजाङ्गनाः निर्विशङ्गभवदङ्गदर्शिनि खजरी खगमृगान् पशूनपि त्वत्पदप्रणयि काननञ्च ता धन्यधन्यदिधन्वमानयन् पिबेयमथरा मृतं कदा वेणुभुक्तरसशेषमेकदा दूरदो बदकृतं दुराशयेत्याकुला मुहुरिमा समामुहन् प्रत्यहं च पुनरिद्धमङ्गनाश्चित्तयो दनुग्रहाद। बद्धराग विवशास्त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् मिटर्शालिनी रागस्तावजायते हि स्वभावान् मोक्षोपायो यत्नदस्यान्न वा स्यात् तासां तद्वयं लब्धमासीद् भाग्यं भाग्यम् पाहि मां सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द